कीर्णाक्षत्रियकोटीभिः मेरुमन्दरभूषणा त्रिः सप्त कृत्वः पृथिवी तेन निःक्षत्रिया कृता एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः अन्यद्वर्षशतम् रामः सौभे शाल्वमयोधयत। ततः स भृगुशार्दूलस्तम् योधयन् प्रभुः सुबन्धुरम् रथम् राजन्नास्थाय भरतर्षभ नग्निकानाम् कुमारीणाम् गायन्तीनामुपाशृणोत् तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययो यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः